णिकर्णिके हरिहरौ सायुज्यमुक्ते तलौ वादन्तौ पुरुतः परं परमुभौ जन्तो प्रायाणो सवे मद्रूपो मनुजोऽयमस्तु हरिण प्रोक्त शिवस्तक्षणात् तन्मद्याद् गुलाजनो गरुड पशाः पतन्ति नियत भोगक्षये ये पुर जायन्ते मनुजास्ततोऽपि पशव कीटाः पतङ्गादय ये मातर्मणिकर्णिके तव जले मज्जन्ति निष्कल्मषा सा धन्यतमापि मुक्तनगरे सालङ्कृता गङ्गया तत्रेयं मणिकर्णिका सुखकरि मुक्तिर्हित किङ्करि स्वर्लोकस्तुलितः सहैव विबुधै काश्यासमम् ब्रह्मणा कलम् तत्रापि काशोतमा तस्याम् सा मणिकन्निकोत्तम तव यत्रेश्वरो मुक्तिर देवानामपि दुर्लभम् स्थलमिदम् पापौ घनाशक्षमम् हस्तेषाम् कथम् श्रुति ज्ञात्वा तद्धिविरञ्चिना विरचिता वादानसि शर्मदा लोका स्वर्ग स्वर्गसुखास्ततोऽपि लघवो प्रदा काशी मुक्तिपुरी सदा शिवगलि धर्माधमोक्ष धरा धर धर श्रीवत्स भूषाण योप्येकः किल शङ्करो दिषधरो गङ्गाधरो मार हे मातर्मणिकर्णिके तव जले मज्जन् द्यते शक्रस्तम् मनुजम् सहस्र सदा तत्परः आयातम् सविता सहस्र किरणैर् प्रत्युद्गतो भूत् सदा पुण्योऽसौ वृषगोधम् कर्णिकास्नपनजम् पुण्यम् नभस्तु क्षम स्वीयैरब्धशतैश्चतुर्मुखधरो वेदाथ दीक्षा भुरु योगाभ्यासबलेन चन्द्रशिखरस्तत्पुण्यपारङ्गता कोटिशते स्वपापनिधनम् यत् शाश्वमेधैपलम् तत् सर्वम् मणिकर्णिकास्न वनजे पुङ्गे भवेत् स्नात्वा स्तोत्रमिदम् नर पठति चेत् संसारपाधो निधिम्